पुनो अपि गाहदेवृतो विश्वानिकृ नियजेवाणो निर्मिलम् भजरः कविरत्यो न क्रीणम् परिवारमर्हति असश्चाभिश्रियो हरिम् लभन्ते वदाभू धन्यवाह ृजन्धि परिगोभिरावृतम् धृतीये पृष्ठे अधिरोचने दिवः कवेमा प्रजादिव्यस्य रतसत्वम् विश्वस्य भुवनस्य राजसि अधेतम् विश्वम् भगवमानजेव पञ्च प्रतिशभिधर्मणि त्वञ्जापृथिवीम् जातीरभृतभज्योतीम् पवमानसूर्याः मवित्रे रजसोऽपिधर्मणिदेवेभ्यः सोम पवमानपूयसे समाहारभ्रदुद्धेवा विश्वाभुवनानि ये मिले रे भयेत्मारामव्ययम् मृषावनेष्वचक्रीः ीलयो वावसानानोषदृशम् विहन्ति मदयः पनिप्नतम् सूर्यस्य रश्मिभिः परिम् यदन्तम् गन्वादम् यथाभिधे अजरन्त प्रतिरोनामुपजातिनिष्कृतम् धूनाम् पवदे पदृतस्य यातिपतिभिः खनिक्रदते सहस्रदापदिच्चे हरिः पुनानो वाचम् जनयन्नुपावसो जन पश्यो विधावसि रो नोहव्यया नूतोद्रेभ्यः सुतो महेवायाजधन्यायधन्वसि भ्यर्षसि स्येनो नवम् सुकरसे सीदसि इन्द्रायमद्वामद्यो मदः सुविष्टम् भवो भवो वीलक्षणः सप्त सुसारोऽभिमातरस्विषु नवम् यज्ञानम् जेनम् अपाङ्गम् धर्मम् दिव्यम् विरक्षसम् दोमम् विश्वस्य भुवानस्य राजसे ईशानयिमाभुवानानिवीयासेयुशानयुम् दो हरितः सुपन्याः तास्ते क्षणम् तुमधूमद्भृतम् वयस्तव्रते सोमतिष्ठम् तु कृष्टजाः ृचक्षाधिपवमानमृषभदाविधावस्वसु मद्धिरन्यवध्वजम् जीवसे गोवित्पवस्वसुमद्धिरण्यविद्रे दोधायिम् भुवनेष्वर्पीतः ॐ श्रीरोः अधिरोमी स्ववित्तम् भाविप्रामुप गिरे महासते उन्मध्वूर्वणनाः अधिष्ठिपधपोऽवसाः नो महिषोऽपिसते छाया पवित्र रथो वाजमालोहत्सहस्राभृष्टिर्जयति स्वो बृहत् वन्दनामुदीय प्रजाव्वादि ब्रह्म प्रजावद्रयिमस्तावस्त्यम्भस्मभ्यम् जाततात् सोऽग्रे अह्नाङ्गलविहर्यतो मधः प्रचेतसाचेदयते अनुद्युभिः गानातयन् च संदीर्यम् च धर्तरि अञ्जेव्यञ्जते समञ्जते कृतम् रिहन्ति मधुराभ्यञ्जते सिन्धोरुच्छ्वासे पतयन्तमुक्षणम् हिरण्यपाः पसुमाः सुगृभते पश्चिदे पवामानायगायतमहीनधारात्यन्धो अर्षति अयर्नजोर्नामदे सर्परित्व सरदृशा हरीः अग्रे गोराशाभ्यस्तविष्यते विमानोऽह्नाम्भुवनेष्वीतः हरिर्घृतस्व सुदृशीको अर्णवो ज्योतिरसप्पवते राजभोग्याः असर्जस्कम्भो इवर्भुवनान्य अंसुरेहन् निदयः पुनिदम् गिराजि निर्निजमृग्णो युः प्रदेधारात्यन्वा निवेश्य पुराणस्य संयतो यम् दिरम्भाजः निर्गोभिरिन्दोचम्बोह स भज्यसाधो बालसोमकलसेषु सीदसि अवस्तसो मृतमिन्ना भुक्षो यो वा रेपदि धावमधु प्रियम् देहि विश्वान् रक्षस इन्दो अत्रिनो मृगत्वा देव विदधे सुवीराः परिको संनिषि दर्हि पुराणोऽवाचमर्ष अश्वम् नत्वा वादिनम् भर्जयन्तोच्छा बर्हीरसनाभिर्नयन्ती स्वायुधः पावयिन्दुरसस्थिया वृजनम् रक्षमाणः देवानाम् जनिता सुदक्षो विष्टं दिवो धरुणः पृथिव्याः विप्रेता जना मृभुर्दीरवुशनाकाव्येन स चिद्विवेदनिहितम् यदा सामबीच्या अङ्गुह्यम् येन स देवधूमान् इन्द्र सोमा वृषा वृष्टे परि पवित्रे रक्षाः सहस्रदा स तथा भूरिदावादस्वत्तमम् अभिगव्या सहस्रा महे वाजा यावृता यस्रवाँसि या पवित्रेभिः पवमाना असृग्राङ्भस्य भो नभितनाजो अत्याः परिधुष्मा पुरुभूतो जनानाम् विश्वासरद्भोजना पूयमानः अथा भरस्येन भृतप्रजाम् शिरयुम् तुञ्जानो अभिवाच वर्ष एष सोभानः परिसोमः पवित्रे सर्गो न सृष्टो अदधा भदर्वा दिग्भेशिताः नाम यजो न सङ्घेगा गव्यन्नपि सूरो न सत्त्वाः एगाय न विद्यस्तनयम् जभ्रैः सोमस्य देवादयम् प्रधाराः उदस्म राशिम्पदी याशिगो नामिन्द्रेण सोमशरथम् जीरदानो शिक्षाः सजीवत्सवता अयम् सोमयन्द्रतुभ्यम् सुन्देतुभ्यम् पवदे त्वमस्य पाहि त्वम् हयम् च घृषेतुमम् वा वृषयन्द्वम्वतायुज्याय सोमम् स येन्द्रजो न भूरिशालयोजिमहत्पूरुणि सातजेवसूनि ष्याणि जाता सर्षा दामन ऊर्ध्वानवन्दयुम् नयो नियित्वा माना सत्ये बहवः सम्भाविष्टः विश्ववारोद्रविनोदाय पद्मन् भूमेवानोधि सोम इन्द्रो न यो महाकर्मा निषग्रहन्दानित्राणामधिरोमोऽ वै द्वो न यत्त्वमहीनाम्नाम् हन्दायिश्वस्यादस्योः अद्ययो मनः सृजमाजांसीर्णुते नदीषु जयो न युद्धा महतमुपधिर्यत्यो मपपवमानभूर्मिम् एते सो मा अधिवाराण्यव्यादिव्यारोसो अभ्रवर्षाः समुद्रम् सिन्धो नीते सुदासो अभिकलसाङ्गसृग्रह्म सुष्मे सर्धो न मालोरम्बवस्वानाभिषस्ता दिव्याय साभिट आपो न मक्षो वदर्भवानसहस्रा जनू नेष्टियो नो दक्षा योमेवासिरोम रोश्यमन्यः पत्याभिरस्याम् दिवो न भृष्टिः पमानो अक्षा सहस्रधारो धन्या अस्मे मातुर्वसेवनाधरो माह राजा ना सिन्धो नामवशिष्टवासृदस्य हद्रजिष्ठा अप्सु द्रप्सो वा हृदयस्य नजूतो दुघजीम् पिता दुग्गजीम् विसुर्जाम् न्तमध्वो अया संहरीमर्षम् दिवो अस्य पतिम् सूरो युत्सुप्रथमप्रच्छते गा अस्य रक्ष सापरीपात्युक्षा मधोपृष्टम् घोरमया समस्वं रथे युञ्जञ्जर्चक्रविश्वम् कारयीम् रामयो मर्जयन्ति सनाभयो बालिन मूर्जयन्ति शतश्रयीम् कृतदुःखस्वचन्दे समाने अन्तर्धरुणे निभक्ताः आयीमनिषन्ति नमः पुनास्तायीम् विश्वतः परिषन्ति पूर्वी दुष्टम्बो दिवो धर्मपृथिव्या विश्वा बुदक्षितयोगस्ते अस्य असतरमुत्सो गणते निजत्वान्मध्वो अंशः पावत इन्द्रियाय मन्वन्नवातो अभिदेववीरविन्द्राय सोमवत्रहापावस्व षड्धिमहपूनश्चन्द्रस्य राजः सुवीर्यस्य पद यस्याम रयिन् भालोजनितारोदस्योलसोलाजम् दर्शन्नायाधीन् न्द्रम् गच्छन्नायुधा संविधानो विश्वावसुहस्ता यो राधानः अभिष्टेभृष्टम् मृषानम् वयोधामाङ्गूराणामवापसन्ध्रवाणीः वनावसानो करो नो न सिन्धोऽन्विरत्रय देवार्याणि सूरग्रामः सर्वभीरः सहापवस्वसनीता धनानि ऋगमा योधा क्षिप्रधन्वासप साशत्रून् गुरुगौ ृषस स्वा अर्गाद्रदो महो अस्मभ्यं मादाय मत्सि ओमवरोनं नत्सी मित्रम् वत्सीन्द्रमिन्दो भगवमानविष्णुम् मत्सिद्धो मारुधम् वत्सी देवान्वत्सी महामिन्द्रमिन्दो मदाय राजेवक्रतुमा न मे न विस्वाघनिघ्रुरि इन्दोकय च सेवयो धायूरम् भात स्वस्ति विश्वदानः भद्रन्न अपि वातयमनाः ओलिः को मनोगा प्रथमो मनीषी दशस्वसारो अधिसानोऽरन्ति वन्हिंसनान्यच्छीते जनस्य दिव्यस्य कव्यैरथीषुवानो न हृष्येभिरिन्दोः रजो मृभिरमृतो मर्त्ये धर्मृजानोऽभिर्गोभिरद्भिः वृषा वृष्टेरोधम् सुरस्ते पनो रुषदीर्तेपयोगो सहस्रमित्वा पथिभिचोदित भस्मभिम् विगातिराद्रक्षसः सदा पुनानयम् लवोन्विहि निश्चोपरिष्टात् शतापे न ये अन्ति दूरादुपदायमेषाम् सवन्नव्या देवि स्वीविः ये दुष्टः सो धनुषाः बृहन्तस्ताम् से, से अस्यामपुरुगतोक्षो देवापूर्णो अपस्वा र्गा अस्मभ्यम् लोकातनयासूर्यम्पेतनये यानोगामिन्द्रियम् पूरमानप्रतिदेवाङ्गजुषतप्रयोभिः चक्षादेन मदधानः कविरश्च योनौ श्रीरन्मो दे वसदाने शूमे मद्मनुषयः सप्तविप्रा करोधागा दुविद्विश्वदे वः सोमः पुराणस्य दाने नित्यम् ृभद्विश्वे शुकाव्ये श्रुरन्तानुजान्यत देवम् भवत्ये सो ममनिन्दे विश्वे देवाश्रया एकादशाः ददस्वधा विरतिकाव्ये मृजन्दित्वा रजः सप्तजस्वीः तन्न सत्यम् भवानस्यास्तु यत्र विश्वे कालवः सन्नसन्तो अग्रिनोदु लोकम् रावन्मनन्दस्य वेटरभीतम् परिसद्मे भव सुमान् यो दारालसत्यः समीतिरियानः सोमः पुनानः कलसा नयासीतीरम् मृगो निरोगणेषु ीः हरिपर्यद्रवज्यासूर्य द्रोणम् आद्रभिन्नसि सर्वावसानो निरा दधन्वे गुरुवारो अद्भिः पर्यो न योज्यामभिरव्यम् सङ्गच्छते कलसमुस्त्र्याभिः प्रपिगोधरज्ञा यायन् दुर्धाराभिः सजते सुमेधा गङ्गामप्पया सा तमोष्वभिस्वीवसुभिन्नैः सर्वो देवेऽभिः पवमानरतेन्दो रयिवश्विनम् वावसानः राजता पुरम् म् पुराणो वाताप्यम् विश्वश्चन्द्रम् प्रबन्धोर्मक्षोजगण्याशुभस्पर्धनम् वेदिहसो जेन विशाह अपोरे नृजन्नप सुमध्वायन्मोर्मस्य रामः सर्वे भुवानि प्रसन्द यन्वास्त्वेन कावारितायन्दीरविवावश्रयन्दुकविका व्याभरजेतुरोनरतोपमानानि विश्वा देवे जय गोमत्ताय भूषण्क्षाय राजः पूर्वभूषणव्याः श्रीजयश्रीगामिरीगाय श्रीरम्भजो जयऋतुभ्यो दधादि श्रीरम्भतानामृतमाजम्भवन् सत्यामितद्रौ इषौमभ्या हरिषा सङ्गामुर्जो निवान् शत्रून् करेन्द्रम्बरस्य जठरे पुनानः मतेर्जनयतस्वधाभिः हरि सुनः पत्यामृतस्य नाम च्छीरुपयन्ति सञ्चारि सतीसन्तम् नोहम् च क्षणम् गिरिशाम् म्बावसानम् मदयस्य चन्द्रेभक्तिमरुणम् समुद्रे येष्यण्वायामुपभक्ते वोधः पुरानयम् गोविश्यामनीषाम् इन्द्रस्तौभराय सुवीर्यस्य परायस्याः रसेनानी सूरो अग्रे रसाम् गम्यन्मे जहर्षदेहस्य सेना वान् सखिभ्या सोमो वस्त्राभानी धत्ते सवसर इन्द्रोपयुञ्जस्व हरे नमोभिः आदिष्टमिन्द्रखा विद्वान् ये मलिम् याच्च भवे भ इन्द्रपानाः नपो पर्यो सर्वदा तये सखा हस्ततम् वस्मि भवमान सोम सोमः पवते च नितामदीनाम्पृथिव्याः जनितानिता सूर्यस्य जनितेन्द्रस्य जनितो रविष्णोः ब्रह्मादेवानाम् पदवी कवीनाम् ऋषर्वित्राणाम् महिषो मृगाणाम् श्येणो रुद्राणाम् सीधर्वनाम् सोमः पवित्रमत्ये दिरेभन् न्न सोमात्मवानो मनीराः अन्तः पश्यन् वृजने मामधान्यालक्ष निषु जानन् समर्सरभ्रत्सु मन्वन्न वा दसहस्रेता अभिवाचमृष ेष्याकले देववादलिन्द्राय सोमोरण्यो मदाय सगस्य समानादिकाति नो मृधानो अप्सु दुहानो अद्रौ अभिरस्य राजा विदद्गातुम् ब्रह्मणे पूयमानः पितलस्वपूर्वे ब्रह्माणिन्नपरिधीन्नु वीरेभिरस्ते भवानः यथा वा न वेव योधामिन्द्रावो विद्ध विष्मान् देवास्वद्रवीन्द्रे सन्दृष्ट जनया यूधानि अवस्वधा मम धूमान् अधिकारो अव्यये अभद्रोणानि घृतवान्तिन्द्रमो मत्सर इन्द्रपालाः ृम् दिवसारदावाजयदेवलदेवावसान स्वयाभिप्रतिरन्नायोः एषस्य सोमो मतिभिः पुनात्यो न भाजीदरतीतराजीः यो न दुग्धमतीतेनमुर्वीवधातुः सुजमो न मोधा वायुधस्वभिः पूजा नोऽभ्यर्षदृह्यम् धारुनाम अभिवायम् सत्यैरिवस्रवस्याभिवायुमभिकादेव सोम शिशुम् जज्ञानम् हर्यतम् रीयन्ति शुम्भन्ति वह्निम् मरुतो गणेन कविर्गेर्भिः काम्येन कविः सन् सोम पवित्रमध्ये र्गा सहस्रा पदवी कवीनाम् धामा महिषिनोराजतिभृत्वा गोविन्द्रत्सायो बिभ्राते अपावोर्मिम् सजामानः समुद्रम् तुरीयम् धामा महिषो विभक्ति र्यो न शुभ्रः सन्वम् वृजानाद्यो नेतना परियोधमर्षन्वणि क्रदच्छम्भोराविवेद अपरस्येन्दोपमानो महाविः कणि क्रदत्परिवाराण्यर्ष इन्द्रम् तेन सोमत्मत्तो गोरिकलसाम्बाविवेश सामकृत्य विरक्षणयामिन् ेषु पवमानशत्रोन्त्रियान्नचारो अभि जयिन्दोः श्रीधन्वनेषु जगन्नो न मत्का सोमः पुनानः कलशेषु सत्ता आदे सोमयोषे पयन्ति सुभाः सुधाराः हरिणे न पुरो अप्सरिक्रगत्कलसे अस्य न प्रेक्षा हेमना पूयमानो देवो देवेभिः समृत्तरसम् सुगः पवित्रम् पर्ये दिरेभन्विदेव सत्त्वपशुमान्ता भद्रावस्रा समन्या आवसानो मार्निवचानादिशंसन् पूयमानो यक्षागेव समो प्रियौ यजते धानो अव्ये यदस्तरो यसताम् शैलो अस्मे अभिस्स रथन्वा पूयमानो यूयम् वा तस्वस्तेगाय भ्यर्चामदेवान् सोमम् ेवयोनाः इन्दुर्देवानामुपगत्यमानम् सहस्रधारपवदे मदायस्तवानो अनुधामोर्वमखन्निन्द्रम् महदे सौभागाय श्रोत्रे गाये हरिर्वि पुनानयन् ब्रह्मजो गच्छतु देवराय देवैर्यायि सरसम् राजो अच्चायूरम्बा स्वस्ति विश्वो देवानाञ्जलि वा विभर्ति मह्रुजी बन्धप्पा भगवदा राहो अभ्ये दिरे ृणायासो यो दुर्मम् साकम् प्रपदन्ति बाणम् सर्वम् भरमुर्यायस्य योजम् रथा क्रीणम् तं विमतेन दावाह ोऽन्यो गायिन्वयि क्षोमादेवर्यिरोमा भवते भद्रीदुः इन्दु इन्द्रस्य सख्यञ्जोषा नो देवो देवस्य वत्सरोदाय अभिप्रियाणी पवदे पुनानो देवो देवान्सेन से न इन्द्रधर्मान्नृतावसानोदसखिको अव्यसानोऽगणिक्रदयन्ने पृथिवीमुद्याम् इन्द्रे मधुराम् रता सान्वान हिरङ्गम् पमासन्ेषु गण्ड्राय सोमपरिविच्यमानः ये रामधिलोमलायोग्रामस्य नमयन् रिलोमसिक्ता दुष्पेण इन्दो सुगान्य स्वीवाम् शृण्वन् घने भविष्वद्विलानि विघ्नन्नो व्ये स्तुम्बान् बन्धो याङ्गीनो आयो ग्रन्थेन्न विश्वम्बुवृम् च सोमा क्रजो हरि राशे दारो नर्यो देव धन्वपश्यावाणि चुषोदाय देवदास इन्दो परिष्णुना धन्वधारो अव्ये सहस्रधारस्तु रविर सब्धः परिस्रभवा चादो नृष्ये अकस्मानो दे रथा अयुक्ता अत्या ृजानास आदौ एते शुक्रासो धन्वन्त्रि सोमादेवासस्तामुपायाध्यै एवान इन्दो अभिदेवीम्बरिश्रवणभो अर्णश्च मूषु सो अस्मभ्यम् गाम्यम् ऋन्तम् श्रीन्ददातु वीरवम् समुद्रम् ोमेन सोवाणीके आदीमा शन्वरमा वाहावसानम्पतिम् कलसे गावयिन्दुम् हृदा दिव्योदाहभिन्वजनमुदाय पपते सुमेधाः धर्मा भोवत्र जन्मस्य राजा प्रहस्मभिर्दशभिर्भारिभूम अभित्रेवा मुदमत्याो अर्वाणि भाजोरभि सरः सहस्राहदेभो दाभवा सोमद्रविमो विपूनानः देवाव्यो नः परिविध्यमानाः क्षयमिम् सुवीरम् धन्वन्तु सोमाः आयत्यवस्वमतिम् विश्ववा राघोदा रो नदी विजो मन्ददामाह ेवता देवपानाष्वस्ये गजितुष्ठाने रोदसेव पुनः अश्वो नक्रदोषाभिल्युजानः सिंहो न भीमो मनशोजवीर्या ष्टापस्व इन्दो शतमहादेवया तादृग् मेलाः कवयोः पृजन्ति इन्दो चरित्रम् जिवापत्सपुरजे मोधनस्य दिवो न सर्गाधतृ ग्रमन्नाम् राजान मित्रम् प्रवीणादिधीराहोर्न पुत्रः खलु अस्याेदा रामधो अधीरघ्रन्वा राण्यपूजो अत्येष्व्यान् पवानपेधा भगोनाम् जज्ञानः सूर्यावबिम्बो अर्कैः कणिक्रदलसम्बन्धामृतस्य शुक्रो विभास्य मृतस्य नाम सैन्द्रायपवशे मत्सलवान्वानो वासम् कवीनाम् दिव्यः सो वर्णो वा दक्षिषोमपिन्वन्धारा कर्मसम्बवधानम् नृणन् ोपरश्मिम् तिस्रोवाचयेरयतिप्रबन्ध्यवृतस्य धीरिम् ब्रह्म नो मनीषा गावो यन्दियोपादिम् वृक्षमाना सोमम् यन्दिमदयो भावसानाः सोमम् गावो धेनवो भावसानाः सोमम् विप्रामतिभिक्षमाना पूयते तर्जमानः अलका प्रकासृष्टुभः सन्न वन्दे देवानः सोम परिहृत्यमानहापस्व पूजमानः स्वस्ति इन्द्रवाभिवातम् जनजापुरन्ध्यम् पुरानो असदच्छमूषु सपम् सुहस्ताः जानसूरेण धातोभे अप्रारोः प्रियादित्यस्य प्रियसा स भूधनम् कार्येन प्रयम् सत् िरावद्ध नूयमानः सोमो मेघ्वा अभिनो ज्योतिभावीत् येना नः पूर्वे विदनः पदज्ञा स्वर्वियो अभिगाद्रिमुष्टन् अक्रान् ृहापवित्रे अधिसानो हव्ये बृहत् सोमो वा वृद्धे दु आदिन्दोः महत्तत्सोमो महिरश्च गापाम् यद्गद्भो वृणीतदेवानेन्द्रे पो योजानयत्सूर्ये ज्योतिरिन्दोः सद्धो ीवायुविश्वजे राधामी वाम् इन्द्रस्य ोम् भव स्वोत्सलम् वीरम् ज रावस्वागम् जरस्वेन्द्राय भवान इन्द्रोम् ज रावस्व समुद्रात् सोमसुदोदारयात्यो न हि त्वासिन्धनिम्नमभिवाच्यक्षाः आयो निम्भङ्गत्पुनारस्समिन् दुर्गोभिरसरत्समद्भिः येन से पवदयम् तमस्वान् स्वरुचक्षारथिरः सत्यष्णः कामो न यो देवय तामसर्जी येन प्रत्येण वयसा पुनानस्तिलो रत्वांसिदधा नः वः सर्वत्रिवरोधमप्सु दे वयाति समाने षेभन् ो नो देवतोपरिश्रम शम्भो पूजमानः अक्ष स्वादिष्टो नयः स पिता सत्यमन्मा अभिवायम् वेत्यर्गागादोभिमित्रावरुणा पूजमानः अभिनलम् ष्टामीन्द्रमृढानम् वज्राहुम् अभिवस्त्रा सुवस्राण्यर्डाभिषेनोगाः पूजमानः अभिचन्द्राभद्रा नोरन्याभ्यस्वान्वतिनो देवसोम अभिनो अरुड दिव्यावसोऽन्य स्वाचीना पूयमानः अधिनाः अजाम्भाज पूतन येन स्वाधिश्रुते स्रवाय स जीथे षट् भारो वधूनिवत्कन्दो नवत्प्रणाय अयिमे अचरणं षट्मे वायन्निकृतश्रेण जा भाविद्रा न वादितो अजेतः सन्धितन्येष ो एष विश्वविद्वा विश्वस्य भुवानस्य राजा दप्सा वीर्यम् विदधेष्विन्दर्विवारमग्नम् समयाति याति दशभिमपा जलम् रामानेन सोमभये कृतम् विजीर्य रो नामानन्दावेसिन्धपृथिवी तज्जोः अभिनवम् इन्दो सहस्रभर्णसन्दुवेद्यम् विद्भासम् अशो अव्ययम् रसेन ब्रह्मा व्यत इन्दो रभिद्रुणा यतो हि यानो धाराभिरक्षाः च्छुतः धारायभूर्ध्वो अध्वरे भ्राजानैति योग्ययोः अयत्वम् देहे बदरस्य देवः सुमर्ता यदा सुरे इन्दो सहस्रम् सदात्मानम् विवाससि अयम् देहे अस्य मृत्रहन्वशोभस्व पुरःसुराः क्षतमाजुरस्या वशुनस्याम् संसारो अद्रिसम् गतम् प्रियमिन्द्रस्य काम्यम् भ्रस्वाभयम् चूर्मिणम् हरित्यम् हर्यतम् हरिम् भद्रम्बोरञ्जिवारेण यो देवान्विश्वान्य सरगच्छति अस्य वो सापान्तो लक्षसाधनम् यत् सूर्यरसरो वृणदे स्वार्णर्यतः साम् यज्ञेषु मानती इन्द्रजनिष्ठ रोदसी देवो देवी गिरिष्ठाश्रे धन्तम् तु विश्वनि इन्द्राय सोमपादवेद्राग्ने परीक्षिच्यसे रे चदक्षीनावदेवाय सदनाशदे ते प्रदोजम् पवित्रे अक्षरन् अपप्रोथम् दशिदप्रातस्तामप्रादेतसः तं सखाय पुरोरुचम् यूयम् वयम् च सूचयाः अस्यामवाच ग्रन्थ्याम् सने मपाजाभ्याम्